हरि ओम् श्री सीतारामचन्द्रभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकत्रिंशत् सर्गः शुकसारणो निर्भ्य रावणेन तयोः स भ्रातु निष्कासनं तत्प्रहीतानां गुप्तचराणां श्रीमान् श्रीरामान् वानऋतु मोक्षणं लङ्कायां निवर्तनं च समादिष्टान् दृष्ट्वा स हरियुथपा लक्ष्मणं च महावीर्यम् भुयम् रामस्य दक्षिणम् समीपस्थं च रामस्य भातरं च विभीषणम् सर्व वानरराजं च सुग्रीवम् भीमविक्रमम् अङ्गदं चापि बलिनम् वज्रहस्तात्मजात्मजम् हनुमन्तं च विक्रान्तम् जाम्बवन्तं च सुषेणम् कुमुदं नीलम् नलं च प्लवगर्षभम् गजम् गवाक्षम् चरभम् मैन्दं च द्विविधम् तथा किञ्चिद्दावाग्निग्नहृदयो जातक्रोध च रावणः भर्तयामासौ वीरो कथान्ते शुकसारणौ अधोमुखौ तौ प्रणतौ अब्रवीच्छुकसारणौ क्रोश गद्गदयावाच संरब्धम् परुषं तथा न तावत् सदृशं नाम सचिवै उपजीविभिः विप्रियम् नृपतेर्वक्तुम् निग्रहे प्रग्रहे प्रभौ रिपूणाम् प्रतिकूलानाम् युद्धार्थं अभिवर्तत उभाभ्यां सदृशं नाम वक्तुम् अप्रस्तवेस्तवम् आचार्या गुरुवो वृद्धा वृथा वान् पर्युपासिताः सारं यद्राज शास्त्राणाम् अनुजीव्यम् न गृह्यते गृहीतो वा न विज्ञातु भारोज्ञानस्य बाह्यते ईदृशै सचिवैयुक्तो मूर्खे दीष्ट्या धराम्यहम् किन्तु मृत्योर्भयम् नास्ति माम् वक्तुम् यस्य मेषा सुतो प्रतिशुशुभ दहनम स्प्र वनेलप राजमृष ठेना पिन खनियाम तीम पाप चतुपक्ष प्रशांर यदि पूर्वोपकार मे क्रोधो न मृदुताजे अपध्व सतन से ध्वर्चा मम न हि वाम् हन्तुमिच्छामि स्मरामि उपकृतानि वाम् हतौ एव कृतघ्नौ द्वौ मयि स्नेहे पराङ्मुखौ एवम् उक्तौ तु सुसव्रीडौ तौ दृष्ट्वा शुकसारणो रावणम् जय शब्देन प्रतिनन्द्याभिनिसृतौ अब्रवीश्च दशग्रीवे उपस्थापय पयमे शीघ्रम् चारा नीति निशाचर महोदर तथोक्स्तु शीघ्रं वा ज्ञापयश्चरन् ततश्चारः सन्तरिताः प्राप्ता पार्थिव शासन उपस्थिता प्राञ्जलयो वर्धयित्वा जय शिषः तान् ब्रवी वाक्यं रावणो रक्षस चारान् पच्चायिकान् चोरान् धीरान् विगतसाध्वतां इति गच्छत रामस्य व्यवसायम् परीक्षितुम् मन्त्रेष्वभ्यन्तरा ये च प्रीत्या तेन समागतः कथम् अपि ते जागर्ति किम् अद्य च करिष्यति विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः चारेण विदितश्चत्रुः पण्डितैव सुधाधिपैः युद्धे सर्पेन यत्नेन समासाद्य निरस्यते चारास्तुते तथेत्युक्त्वा प्रवृष्टा राक्षसेश्वरम् चार्दुलम् अग्रतः कृत्वा ततश्चक्रु प्रदक्षिणम् तदर्थम् तु महात्मानम् कृत्वा प्रदक्षिणम् जग्मु यत्र रामः लक्ष्मणः ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ पशन्ना ददृशुर्गत्वा स्वीव विभीषणौ प्रेक्षमाणा शमं तां च बभूवुर्भयविह्वलः ते तु धर्मात्मना दृष्ट राक्षसेन्द्रेण राक्षसाः विभीषणेन तत्र स्था निगृहीताय दृश्य शार्दूलु ग्राहित स्वेके पापोऽयमिति राक्षसः मोचितः सोऽपि रामेण वध्यमानप्रभङ्गमये अन्वृशन्तेन रामेण मोचिता, मोचिता राक्षसा परे वानरे अर्जिता सेतु विक्रान्त लघु पुनर्लङ्काम् अनुप्राप्ता पशन्तु नष्ट चेत स ततो दश ग्रीवमुपस्थितास्ति चारा बहिर्निचर निशाचर गिरेषु वैलस्य समीपवासिनम् न्यवेदयन् रामबलम् महाबल इत्यार्थ्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे को न श्रीसीतारामचन्द्रर्वणमस्तु